गरुडपुराणम् आचारकाण्डम् अध्ययम् तु ऋषय ऊचुः कथम् व्यासेन कथितं पुराणं गारुडम् तव एतत्सर्वम् समाख्याहि परम् विष्णुकथाश्रयम् सूत उवाच अहम् हि मुनिभिः सार्धम् गदो बदरिकाश्रमम् तत्र दृष्टो मयाभ्यासोऽध्यायमानः परेश्वरम् तम् प्रणम्योपविष्टोऽहम् पृष्टवान् हि मुनीश्वरम् सूग उवाच व्यासब्रूहिहरेरूपम् जगत्सर्गाधिकम् ततः मन्ये ध्यायसि तम् विभुम् एवं पृष्टो यथा प्राक तथा विप्रा निबोधत व्यास उवाच शृणुसूदप्रवक्ष्यामि पुराणम् गारुडं तव सः नारदक्षाद्याैर्ब्रह्मामुक्तवान् यथा सुद उवाच दक्षनारदमुख्यैस्तु युक्तम् त्वाम् कथमुक्तवान् ब्रह्माश्री गारुडम् पुण्यम् पुराणम् सारवाचकम् व्यास उवाच अहं हि नारदो दक्षो भृग्वाभ्याः प्रणिपत्यतम् सारम् ब्रूहिदिपप्रत्युर्ब्रह्माणम् ब्रह्म लोककम् ब्रह्मोवाच पुराणम् गारुडम् सारम् रुद्रम् च माम् सुरैः सहाब्रविद्विष्णुस्तथाहम् व्यासवच्मि ते व्यास उवाच कथम् रुद्रम् सुरैः सार्धमब्रवीद्वै हरिः पुरा पुराणम् गारुडंसारम् ब्रूहि ब्रह्मन् महार्धकम् ब्रह्मोवाच अहम् गदोद्रिम् तत्र दृष्टो मया रुद्रो ध्यायमानः परम् पदम् पुष्टो नमस्कृतः किम् देवं देवम् ध्यायसि शङ्कर त्वत्त्वो त्वत्तो नान्यम् परम् देवम् जानामि ब्रूहि माम् तदः सारसारतरम् तत्त्वम् श्रोतुका मप्सुरैः सह रुद्र उवाच अहम् ध्यायामि तम् विष्णुम् परमात्मानमीश्वरम् सर्वदम् सर्वगम् सर्वम् सर्वप्राणिहृदि स्थितम् भस्मोद्धूलितदेहस्तु धूलिद विष्णोराराधनार्थम् मे व्रतचर्या पिदामः तमेव गत्वा पृच्छामः सारम् यम् विष्णुम् जिष्णुम् पद्मनाभम् हरिम् देहविवर्जितम् युक्ता सर्वात्मनात्मानम् तम् देवम् चिन्तयाम्यहम् यस्मिन् विश्वानि भूतानि तिष्ठन्ति जविशन्ति च गुणभूतानि भूदेशे सूत्रे मणिगणा इव सहस्राक्षम् सहस्राङ्घ्रिम् सहस्रोरुं वराननम् अणीयसामणि यां सं स्थविष्ठं च स्तवीयसाम् गरीयसां गरिष्ठम् च श्रेष्ठम् च श्रेयसामपि यम् वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च वृणन्दि सत्यकर्माणम् सत्यं सत्येषु सामसु पुराणपुरुषप्रोक्तौ ब्रह्म प्रोक्तो प्रोक्तो द्विजादिषु क्षये सङ्घर्षणप्रोक्तस्तमुपास्यमुपास्महे यस्मिल्लोका स्फुरन्ती मे जलेषु शकुञो यद्ध ऋतमेकाक्षरम् ब्रह्म यत्तत्सदः सदः परम् अर्चयन्ति च यम् देवा यक्षराक्षसपन्नगाः यस्याग्निराश्यम् द्यौर्मूर्ध्वा खम्नाभिश्चरणौ क्षिदिः चन्द्रादित्यौ च नयने तम् देवम् चिन्तयाम्यहम् यस्य त्रिलोकी जठरेमस्य काष्ठाश्च बाहवः यस्योच्छ्वास्वश्च तम् देवम् चिन्तयाम्यहम् यस्य केशेषु जीमूदा नद्यः सर्वाङ्गसन्धिषु कुक्षौ समुद्राश्चत्वारस्तम् देवम् चिन्तयाम्यहम् परकालात् परो यज्ञात् पर सदसदश्च यः अनादिरादिर्विश्वस्य तम् देवम् चिन्तयाम्यहम् मनसश्चन्द्रमायस्य चक्षुषोश्च दिवाकरः मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् श्रोत्राभ्यां च तथा दिशः मूर्धभागादिवं यस्य देवं चिन्तयाम्यहम् सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितम् यस्मात्तम् देवम् चिन्तयाम्यहम् यम् ध्यायम्यहमेदस्माद्व्रजामः सारमीक्षितुम् ब्रह्मोवाच युक्त्युक्तोऽहम् पुरारुद्रस्वेदद्वीपनिवासिनम् स्थित्वा प्रणम्य तम् विष्णुम् श्रोतुकामस्थितः सुरैः अस्माकम् मध्यदोरुद्र उवाच परमेश्वरम् सारात्सारतरम् विष्णुम् पृष्टवांस्थम् प्रणम्य वै ब्रह्मोवाच यथा पप्रच्छमाम् व्या सस्त सौ भगवान् भवः पप्रच्छ विष्णुम् देवाद्यै शृण्वगाममरैः सह रुद्र उवाच हरे कथय देवेश देवदेवक ईश्वरः कोऽध्येयः कश्च वैपूज्य कैर्व्रतैस्तुष्यते परः कैर्धर्मैः कैश्च कयावा धर्मपूजया। केनाचारेण तुष्टस्य किं तद्रूपं च तस्य वै कस्माद्देवाज्जगज्जातं जगत्पालयते च कः कीदृशैरवतारैश्च कस्मिन्यादिलयम् जगद सर्गश्च प्रतिसर्गश्च वंश्यो च कस्माद्देवात् प्रवर्तन्ते कस्मिं मन्ये तत् प्रतिष्ठितम् एतत् सर्वम् हरिब्रूहि यच्चान्यदपि किञ्चन परमेश्वरमाहात्म्यम् युक्तयोगाधिकम् तथा तथाष्ठादशविद्याश्च हरी रुद्रम् ततोऽब्रवीद हरिरुवाच शृणुरुद्रप्रवक्ष्यामि ब्रह्मणा च सुरैः अहम् हि देवो देवानाम् सर्वलोकेश्वरेश्वरः अहम् ध्येयश्च पूज्यश्च स्तुत्योऽहं तदिभिः सुरैः अहम् हि पूजितो रुद्रददामि परमाम् गतिम् नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः जगत्तितेरसम् बीजम् जगत्कर्तात्वहम् शिव दुष्टनिग्रहकर्ता हि धर्मगुप्तात्वहम् हर अवतारैश्च मत्स्याध्यै पालयाम्यखिलम् जगद अहम् मन्त्राश्च मन्त्रार्थपूजाध्यानपरोह्यहम् स्वर्गादीनाम् च कर्ताकम् स्वर्गादीन्यहमेव च योगी योगोऽहमेवाद्यपुराणान्यहमेव च ज्ञादा श्रोदा तथा मन्दा वक्ता वक्तव्यमेव च सर्वः सर्वात्मको देवो भुक्ति मुक्तिकरः परः ध्यानम् पूजोपहारोहं हम, मण्डलान्यहमेव च इतिहासान्यहं रुद्र सर्ववेदाख्यहं शिव सर्वज्ञानान्यहं शम्भो ब्रह्मात्माहमहं शिव अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् अहं साक्षास्तदा चारो धर्मोऽहं वैष्णवो ह्यहम् वर्णाश्रमास्तथा चाहं तद्धर्मोऽहम् पुरातनः यमोऽहं नियमो रुद्रव्रतानि विविधानि च अहम् सूर्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा पुरा माम् तपःसाराधयद्भुवि तुष्ट ऊचेवरम् ब्रूहि मतो वव्रेवरम् स तु गरुड उवाच मम माता च विनता नागैर्दासीकृदा हरे यथाहम् देवताञ्जित्वा चामृदम् ह्यानयामि तदा दास्याद्विमोक्षयिष्यामि यथाहम् वाहनस्तव महाबलो महावीर्य सर्वज्ञो नागधारणः पुराणसहिताकर्ता यथाहम् स्याम् तथा कुरुम् विष्णुरुवाच यथा त्वयोक्तं गरुड तथा सर्वम् भविष्यति नागदास्यान्मादरम् त्वम् विनदाम् मोक्षयिष्यसि देवादीन् सकलाम् जित्वा चामृदम् ख्यानयिष्यसि महाबलो वाहनस्त्वम् भविष्यसि विशार्दनः पुराणम् मत्प्रसादाच्च मम माहात्म्यवाचकम् यदुक्तम् मत्स्वरूपम् च चा तव चाविर्भविष्यति गारुडम् तव नाम्ना तल्लोके ख्यातिम् गमिष्यति यथाहं देवदेवानां श्रीख्यादो विनदासुद तथाख्यातिं पुराणेषु गारुडं गारुष्टयिष्यदि यथाहं कीर्तनी योध गरुडात्मना मां ध्यात्वा पुराणं गदगारुडम् इत्युक्तो गरुडो रुद्र कश्यपायाः पृच्छदे कश्यपो गारुडम् श्रुत्वा वृक्षम् दग्धमजीवयत स्वयम् चान्यमना भूत्वा विद्ययान्यान्यजीवयत यक्षि ॐ उम् स्वाहाजापि विद्यम् गरुडो गारुडीपरा गरुडोक्तम् गारुडम् हिश्रृणुरुद्रमहात्मकम् श्री ्रीगारूडे महापुराणे पूर्वंडे प्रथमशाख्य आचारकांडे श्रीगरुमपुरो पुराणोत्पत्तिणीय्या